मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं तर्टिवन् जालन्धरवधम् श्रीगणेशाय नमः सूत उवाच अधुना शृणुमाहात्म्यं श्रावणस्य सुखप्रदं गणनाथप्रियं विप्रसमासेन वदाम्यहम् रामो दाशरथिसूरः साक्षाद्विष्णुः प्रदापवान् सभासनगदस्तत्रा गदान् विप्रान्ननामः पूजितास्तेन तं सर्वे जगुर्लवणचेष्टितं तद्वदार्थं वयं राम यादास्तं जहिराखव तथेदि तानुवाचासौ द्विजान् पप्रच्छराखवः दुर्जयस्य जयकेन भविष्यति च मे द्विजाः पतस्थं ब्राह्मणा प्राहु गणेशस्याभिषेचनं सोक्तैर्गणेशकैष्टेन विजयी त्वं भविष्यसि मासेषु श्रावणो मुख्य समागतो धुना प्रभो विघ्नेशप्रीदिदोऽत्यन्तममायुक्तो व्रतं कुरु एवमुक्त्वा विधिं तस्मै कथयामासुरादराद गणेशमभजत्तत्र शत्रुघ्नः परवीरः उपोषणसमायुक्तस्वयं दुग्धमभाक्षयद अभिषेकपरो भूत्वा तोषयामास विघ्नवम् मासमात्रं व्रतं कृत्वा गणेशं नम्य राघवः शत्रुघ्नो ब्राह्मणैः सार्धं ययौ लवणराक्षसं त्रिशूलेन विहीनं संवृद्ध्य तं लक्ष्मणानुजः स्मृत्वा गणेश्वरं दुष्टं जखानशरखातदः महोग्रं पदिदं युद्धं तयो तयोः सर्वभयङ्करं ततः खड्गेन शत्रुघ्नस्तस्य तदो देव देवगणाः सर्वे पुष्पवृष्टिं प्रचक्रिरे शत्रुघ्नोपरि शत्रुघ्नो जयखेरम्ब चाब्रवीद ब्राह्मणैः पूजितः सोऽपि प्रणम्यद्विजपुङ्गवान् आवासं मधुरां तत्र सुदेशां तां चकारप गदे कियदि काले संस्थाप्य पुत्रं महामधिः माधुरे रामचन्द्रं तु ययौ भक्तिपरायणः एवं श्रावणमासे वै गणेशस्य महात्मनः अनुष्ठानफलं प्रोक्तं सर्वसिद्धिप्रदायकम् अन्यत्वं शृणुमाहात्म्यं श्रावणव्रतजं महद जालन्धरवधार्थाय यच्छि वेन कृतं पुरा जालन्धरेण दैत्येन जिदं सर्वं चराचरं त्रैलोक्याधिपदि सोऽपि बभूव वरदानदः आसुरं कर्म सर्वत्र हारयामास दैत्यपैः न स्वाहा न स्वधा कुत्र बभूवे भूमिमण्डले ेवं बहौ गदे पाले गृहीतुं पार्वतीं व्ययौ जालन्धरस्तदो युद्धं बभूवे देवदैत्ययोः देवैः पराजिदा दैत्या पपुलुस्ते दिशोदश तदो जालन्धरक्रुद्धो युयुधे शास्त्रधारकः जिदस् शम्भुः सुरेशानैपपालभयसङ्कुलः अन्तर्दधे महाशक्तिः सदतो विस्मितो भवद समागत्यादि दैत्यराजः समागत्यादिविह्वलः कामबाणाभिभूदत्सन् सस्मारजगदंपिकाम् न लेभे कुत्रचिच्छर्म नानाशीतलजादिषु जज्ज्वाल कामजेनैव वह्निना भृश्यदुःखितः अध देवगण सर्वे पर्वतद्रोणिमाश्रिताः विचारं तस्य नाशार्थं चक्रोर्जालन्धरस्य ते पदो बृहस्पतिप्राह शङ्करादीन् सुरेन्द्रकान् श्रावणे गणनाथस्यानुष्ठानं कुरुद प्रियाः तदेदि गुरुणा युक्ता देवा शम्भुवादयो परे मुनयो गणनाथं वै दुवाभिरन्वतोशयन् दिवारात्रौ गणाधीशमथजन्नैकचेदसः समाप्ते श्रावणे मासे यात्रां प्रचक्रिरे पञ्चम्यां पारणं कृत्वा प्रणिपत्य गजाननं प्रेरिता आकाशगिरातं महादैत्यमाययुः युद्धं कृत्वा महाघोरम् जलन्धरेण शङ्करः स्मृत्वा गजाननं चित्ते त्रिशूलेन जखानतं सस्मृतः शिवदेहेदु लयं ययौ महासुरः देव मुनियुदा शम्भुं तुष्टुवुः पूज्यभक्तिदः जालन्धरं महादैत्यमेवं जित्वा सदाशिवः स्थापयामः स देवादीन् स्वस्थानेषु यथा पुरा वर्णाश्रमयुधाल्लोकाञ्चकारशङ्करप्रभुः नित्यवत्स्रावणे मास्येऽनुष्ठानसंयुदोऽभवद एकनिष्ठतया शम्भुः सिषेवे गणनाय कम् नित्यं ध्यान भूत्वा तमेवाचिन्तयत् प्रभुं एवं श्रावणमासस्य व्रतं ते मया येन व्रतप्रभावेण शम्भुर्जिज्ञे जलन्धरम् इदं यशृणुयान्नित्यं श्रावयेद्वा पठेत् स्वयम् इह भुक्त्वाखिलान् भोगानन्दे स्वानन्दमाप्नुयात् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये जालन्धरवधो नामैकत्रिं शोध्यायः ओम्